अथ इन्द्राक्षीस्तोत्रं नारदमुवाच इन्द्राक्षीस्तोत्रमाख्याहि नारायणगुणार्णव पार्वत्यै शिवसम्प्रोक्तं परं कौतूहलं हि मे नारायणमुवाच इन्द्राक्षीस्तोत्रमन्त्रस्य माहात्म्यं केन वोच्यते इन्द्रेणादौ कृतं स्तोत्रं सर्वापद्विनिवारणं तदेवाहं रवीं यद्यपृच्छतस्तव नारद अस्य श्री इन्द्राक्षीस्तोत्रमहामन्त्रस्य शचीपुरन्दर ऋषिः अनुष्टुप्छन्दः इन्द्राक्षी दुर्गादेवता लक्ष्मीः बीजं भुवनेश्वरी भवानी कीलकम् इन्द्राक्षी प्रसादसिद्ध्यर्थे जपे विनियोगः इन्द्राक्षै अङ्गुष्ठाभ्यां नमः महालक्ष्म्यै तर्जनीभ्यां नमः महेश्वर्यै मध्यमाभ्यां नमः अम्बुजाक्षै अनामिकाभ्यां नमः कात्यायन्यै कनिष्ठिकाभ्यां नमः कौमार्यै करतलकरपृष्ठाभ्यां नमः इन्द्राक्ष्यै हृदयाय नमः महालक्ष्म्यै शिरसे स्वाहा महेश्वर्यै शिखायै वषट् अम्बुजाक्ष्यै कवचाय हुं कात्यायै नेत्रत्रयाय वौषट् कौमार्यै अस्त्राय फट् भूर्भुवस्परो मि